सहस्रपरमा देवी शतमूला शताङ्गुरा सर्वगम् हरतु मे पापम् दूर्वादुः स्वप्रदाशनी प्ररोहन्ति परुषः परुषः परी एवानो दूर्वे प्रतनुसहस्रेण शतेन च या शतेन प्रतनोषि सहस्रेण विरोहसि देविष्टके विधे देवीष्टके विधेवहविषाभजम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसाधारजिष्याविरक्षस्व माम् पदे पदे वो shantish shantish shantihi